प्रत्युवाच महेंद्रस्तं प्रीतात्मा प्रहसन्निवा इह प्राप्तस्य किम् कार्यमस्त्रैस्तव धनञ्जया कामान् वृणीष्वलोकांस्त्वम् प्राप्तोऽसि परमाम् गतिम् एवमुक्तः प्रत्युवाच सहस्राक्षम् धनञ्जयः लो न लोभान्न पुनः कामान्न देवत्वम् पुनः सुखम् कामये त्रिदशाधिपा भ्रात्रांस्तान् विपिने त्यक्त्वा वैरमप्रतियात्य च अकीर्तिम् सर्वलोकेषु गच्छेयम् प्रत्युवाच वृत्रहा पाण्डुनन्दनम् सान्त्वयञ्छ्लक्ष्णयावाच सर्वलोकनमस्कृतः यदा द्रक्ष्यसि भूतेशम् त्र्यक्षम् शूलधरम् शिवम् तदा दातास्मिते ताता दिव्यान्यस्त्राणि सर्वशः क्रियताम् दर्शने यत्नो देवस्य परमेष्ठिनः दर्शनात्तस्य कौन्तेयसंसिद्धः स्वर्गमेष्यसि इत्युक्त्वा फाल्गुनम् शक्रो जगामा दर्शनम् पुनः अर्जुनोऽप्यथ तत्रैव तस्थौ योगसमन्वितः इते श्रीमहाभारते वनपर्वणि अर्जुनाभिगमनपर्वणि इन्द्रदर्शने सप्तत्रिंशोऽध्यायः